नमस् नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्य किञ्चित् आत्मीयसम्बन्धस्य विषये किञ्चित् वक्तुमिच्छामि अस्माकं सर्वेषां लक्ष्यं तु परमपुरुषः इति वयं जानीमः तर्हि परमपुरुषस्य प्राप्त्यर्थं किम् अपेक्षितम् इति चेत् एकः साधकः यः अस्ति एकः भक्तः यः अस्ति तेन परमात्मना सह आत्मीयसम्बन्धः वर्धनीयः आत्मीयसम्बन्धः इत्युक्ते इण्टिमेट् रिलेशन्शिप् वित् गाड् आप्तसम्बन्धः वर्धनीयः सम्यक्तया वर्धनीयः तर्हि परमात्मनः सह व्यक्तिगतसम्बन्धः सम्यक्तया वर्धनीय सम्बन्धः वर्धनीयः परमात्मना सह सामीप्यं प्राप्तुं यथा एकः बालकः यः अस्ति तस्य स्वमातृभिः सह यः सम्बन्धः अस्ति बहु सामी सामीप्यं तत्र सम्बन्धे सामीप्यं वर्तते आप्तसम्बन्धः वर्तते बालकः सम्पूर्णतया मातरं प्रतिं मातरं प्रतिं तस्य समर्पणभावः वर्तते यतोहि सः चिन्तयति बालकः चिन्तयति माता मम कृते सर्वं सम्यक् एव करोति मम कृते किमपि किमपि हानिकरं किमपि न करोति इति कृत्वा बालकस्य भीतिः नास्ति मा, मातुः मातरं प्रति सम्पूर्णतया समर्पणं भवति परन्तु स एव बालकः यहि यदि कोऽपि अन्यः तत्र आपणिकः अस्ति तस्य विषये तादृशसमर्पणभावः न भवति तस्य विषये सामीपस्थसम्बन्धः अपि न भवति यथा बालकः यदा बहिः गच्छति बहिः गच्छति तदानीं मा मातुः हस्तं स्वीकृत्य तत्र सः गच्छति यतोहि बालकस्य मातृभिः सह आत्मीयसम्बन्धः अस्ति इति कारणेन एव समर्पणभावः अस्ति समर्पणभावः इत्युक्ते तस्य चिन्ता न भवति बालकस्य चिन्ता एव न भवति यत्र कुत्रापि गच्छति बालकः मातृभिः सह तदानीं तत्र चिन्ता एव नास्ति यतोहि स चिन्तयति माता सर्वं पश्यति मम सुरक्षामपि सा एव करोति अतः मम चिन्ता अहं किम किमर्थं चिन्तनीयं या किमर्थं चिन्तनीयं तस्मिन् विषये मम कापि चिन्ता नास्ति इति कृत्वा सः सः आनन्द आनन्दितः भवति संतुष्टः भवति इति कृत्वा सः सर्वत्र गन्तुं शक्नोति परन्तु स एव बालकः यदि आपणिकेन सह गच्छति तदानीं किञ्चित् कालानन्तरं तत्र तस्य भीतिः भवति सः रोदनं कर्तुम् आरभते तर्हि अनेन किं ज्ञायते इति चेत् आत्मसमर्पणम् आत्मसमर्पणार्थं किमपेक्षितम् इति चेत् आत्मीयसम्बन्धः अपेक्षितः अस्ति इण्टिमेसि अप् अपेक्षितः अस्ति यदि वयं केनचित् सः अस्माकम् आत्मीयसम्बन्धः अस्ति तदानीं वयं सर्वं तस्य कृते वयं सर्वं दातुम् इच्छामः इत्युक्ते अस्माकं पार्श्वे धनम् अस्ति धनस्यूतः अस्ति तद् तमपि वयं दातुं तत्र सङ्कोचः न भवति क्लेशः न भवति या या यदि कोऽपि आत्मीयः अस्ति अस्माकं कृते बहु बहु समीपस्थः अस्ति तर्हि तस्य तस्य कृते वयं सर्वम् अपि समर्पयितुं वयम् अर्हामः तत्र सङ्कोचः न भवति परन्तु यदि कोऽपि अन्यः अस्ति येन सह अस्माकं सम्बन्धः सम्यक् नास्ति समी समीपस्थसम्बन्धः नास्ति तदानीम् अस्माकं मनसि शङ्का भवति ओ अहं तस् अहं किं वदामि तं प्रति वदामि सर्वं वक्तुं शक्नोमि नो चेत् किञ्चिदेव वक्तुं शक्नोमि वा इत्युक्ते मम मानसिक ये विचाराः सन्ति तान् विचारान् वयं गुप्तरूपेण स्थापयामः तं प्रति अन्यं प्रति न वदामः यतोहि अन्यः यः अस्ति सः आत्मीयः नास्ति तर्हि साधकस्य इच्छा का इति चेत् परमपुरुषप्राप्तिः एव तस्य अत्र भक्तिमार्गे परमात्मा परमपुरुषः अस्माकं कुटुम्बस्य सदस्यः भवति सः बहु समीपस्थः भवति विश्वसनीयः अपि भवति यदा यदा अत्र सम्बन्धः वर्धते तदा तदा अस्माकम् आत्मसमर्पणं अपि शरणगतिः इति अपि वर्धते यदा यदा साधकः सम्बन्धं सम्बन्धस्य वर्धनं करोति परमात्मना तदा तदा तस्य आत्मसमर्पणमपि वर्धते यदि कस्यचित् पुरुषस्य कस्यचित् साधक साधकस्य समीपस्थः सम्बन्धः वर्तते निकटसम्बन्धः वर्तते तदानीं सः शतप्रतिशतं आत्मसमर्पणं करोति तदानीम् आध्यात्मिकजीवने परमपुरुषः एव आश्रयः भवति सास्ति सर्वोच्च सर्वोच्चावस्था सर्वोच्चावस्था अस्ति सर्वोत्तमावस्था अस्ति यदि साधकः चिन्तयति परमपुरुषः बहुदूरे अस्ति तर्हि यदि इत्युक्ते तादृशसामीप्यं न अनुभूयते तदानीं तत्र साधकेन किं करणीयम् इति चेत् साधकेन साधना इतोपि सम्यक्तया आचरणीया यदा यदा साधना साधनाभ्यासः वर्धते साधनाभ्यासः साधनाभ्यासे यदा इतोपि रुचिः वर्धते साधनाभ्यास अभ्यासे सः आसक्तः भवति तदानीं किं भवति तदानीं परमात्मना सह यः सम्बन्धः अस्ति सः सम्बन्धः वर्धते तत्र परमात्मा बहु दूरे अस्ति इति यत् पूर्वं चिन्तितं तथा नास्ति परमात्मा तु समीपे एव अस्ति इति सामीप्यमपि अनुभूयते तदर्थम् अस्माभिः साधना अवश्यमेव करणीया यदा साधना क्रियते तदानीं मनः परमात्मना सह आकृष्टः भवति तदानीं किं भवति कालान्तरेण परमात्मना सह सामीप्यं यदा वर्धते क्षणैः क्षणैः परमात्मना सह सामीप्यं वर्धते यदा साधना क्रियते तदानीम् एकस्मिन् दिने तेन सह ऐक्यमपि भवति तत्तु अन्ततो गत्वा तादृशी स्थितिः अपि भवति सर्वेषां मनुष्याणाम् एतादृशसामर्थ्यं ये वर्तते येन भक्तिः अस्माभिः सम्यक्तया वर्धनीया अयमेव मार्गः अस्ति अग्रगत्यर्थं साधना साधना एव मार्गः अस्ति अग्रगत्यर्थं तर्हि किमर्थम् अस्माभिः किं करणीयं भक् बक, यः भक्तः अस्ति यः साधकः अस्ति तेन किं करणीयम् इति चेत् तत्र परमात्मना प्रति परमात्मनां प्रति परमात्मनां प्रति तत्र स्वस्य हृदयस्य विषयः हृदयस्य विचारः परमात्मनं प्रति तत्र सर्वं वक्तव्यम् इत्युक्ते यदा सामीप्यं न अनुभूय अनुभूयते तदानीं किमपि वक्तुं तत्र सङ्कोचः भवति यदा इत्युक्ते यदा यदा तत्र परमात्मा बहु दूरे अस्ति इति चिन्तयति तदानीं तत्र आध्यात्मिकजीवने वर्धनं न भवति यदा यदा Uh, इत्युक्ते तदानीम् अस्माभिः प परमात्मनं प्रति सर्वं वक्तुम् इच्छामः न इच्छामः अस्माकं मनसि यत्किमपि अस्ति तद् परमात्मानं प्रति वक्तुं न इच्छामः यतोहि सामीप्यं न अनुभूयते अतः समीपस्थः सम्बन्धः आवश्यकः समीपस्थः सम्बन्धः या, यावत्पर्यन्तं नास्ति तावत्पर्यन्तं शरणागतिः अपि न भवति अतः परमात्मना सह सामीप्यम् आवश्यकं परमात् परमात्म परमात्मा यः अस्ति तस्य कृपया एव मकं शरणागतिः अपि भवति तं प्रति शरणागतिः अपि भवति परन्तु लौकिके ये ये सम्बन्धाः सन्ति ते सम्बन्धाः क्षणिकाः क्षणिकाः सम्बन्धाः अद्य यः यः स्नेहितः यः क यः पुरुषः स्नेहितः मम स्नेहितः मम मित्रम् इति यद्वयं चिन्तयामः तं प्रति वयं वदामः परन्तु कालान्तरेण यदा तत्र मित्रतायां हानिः भवति इदानीं सः पुरुषः मित्रम् इति न मन्यते तदानीं किं भवति इति चेत् तत्र दूरं तत्र द्वयोः मध्ये सामीप्यं नास्ति तदानीं तस् सः अस्माकं विषये तस्य युनो भिन्न भिन्न भिन्न अस्ति सम्यक् चिन्तनं नास्ति अस्माकं विषये सः सम्यक्तया न चिन्तयति इति कृत्वा इदानीं तं प्रति वयं किमपि वक्तुं न शक्नुमः यः पूर्वं मित्रम् इदानीं तु मित्रं नास्ति इति इदानीं तदानीं तत्र अस्माकं हृदयस्य वेदनां तं प्रति तु वक्तुं न शक्नुमः इदानीं यतोहि क्षणिकः सम्बन्धः अस्ति पूर्वम् आसीत् इदानीं नास्ति अतः तादृशपुरुषं प्रति अस्माभिः अस्माकं हृदयस्य वेदनां कथं वक्तुं शक्नुमः सुलभं नास्ति परन्तु परमात्मनः विषये परमात्मनः विषये तथा नास्ति यतोहि परमात्मा तु अस्माकं विषये सर्वं जानाति तस्य कृते किमपि नूतनं नास्ति अस्माकं हृदये यत्किमपि अस्ति यः कोऽपि गोपनीयः विषयः अस्ति तं विषयम् अपि परमात्मा जानाति खलु अस्माकं द्विसहस्रवर्षेभ्यः पूर्वं वयं कुत्र आसम् इत्यपि सः जाना सः जाना जानाति सः सर्वं जानाति सर्वज्ञः अस्ति सर्वं जानाति अस्माकं हृदये किम् अस्ति इति सर्वं जानाति अतः तं प्रति यदि वयम् अस्माकं हृदयस्य वेदनां वदामः तर्हि तत्र कः क्लेशः सः तु पूर्वमेव जानाति तं प्रति वयं वदामः तर्हि सम्यक् अस्ति खलु तत्र सामीप्यमस्ति अस्माकं हृदये यत्किमपि अस्ति या भावना अस्ति तां भावनां वयं परमात् परमात्मनं प्रति वक्तुं शक्नुमः तो यतोहि सः तु सर्वम जानाति अस्माकं विषये सर्वम् अवगच्छति अस्माकं या या अस्माकं यः सम्यक् विषयः अस्ति यः सम्य समीचीनः विषयः यः दुर्गुणः अस्ति अस्माकं तदपि सः जानाति सर्वं जानाति तथापि सः अस्माकं विषये तस्य प्रीतिः अस्ति अतः तं प्रति अस्माकं मनसः वेदनाम् अथवा चिन्तनं विचारः यः कोऽपि अस्ति तद् वयं तं प्रति वक्तुं शक्नुमः अतः त तादृश तादृशवेदनां तं प्रति वक्तव्यं चेत् तदानीं प्रथमतया सम्बन्धः सामीपस्थः सम्बन्धः आत्मीयसम्बन्धः बहु बहु बहु आवश्यकः अस्ति तदर्थं किम् अपेक्षितम् इति चेत् साधनायां तत्र नियमेन साधना अस्माभिः करणीया यदा नियमेन साधना यदा क्रियते तदानीं आत्मीयसम्बन्धः वर्धते तर्हि आवयोः मध्ये आवयोः मध्ये तत्र यः भित्तिः आसीत् यः भित्तिः आसीत् अथवा या लज्जा आसीत् सा अपगच्छति सा लज्जा अपगच्छति तदानीं वयं अस्माकं हृदयस्य भावनां तम्प्रति वयं वक्तुं शक्नुमः एतादृशसम्बन्धः केवलं परमात्मना सह एव भवति एतद् एतादृशसम्बन्धं प्राप्तुं किम् अपेक्षितम् इति चेत् साधना अपेक्षिता अस्ति साधनायां तत्र डिसिप्लिन् अपेक्षितः अस्ति साधनायां डिसिप्लिन् भवेत् नियमेन अस्माभिः साधना करणीया अयं विषयः भक्तानां कृते तु सैद्धान्तिकविषयः नास्ति परन्तु यस्य यः पुरुषः साधकः नास्ति यः पुरुषः भक्तः नास्ति तस्य परमात्मना सह तादृशसम्बन्धः नास्ति इति कृत्वा तस्य कृते तु अयं तु सैद्यान् सैद्धान्तिकविषयः अस्ति ओ किमर्थं मया प्रति सर्वं वक्तव्यं मम हृदयस्य वेदनां तं वक्तव्यं सः किं न किमपि न करोति इति तादृशी शङ्का तस्य मनसि भवति परन्तु यः भक्तः अस्ति यस्य तु परमात्मना सह सम्बन्धः अस्ति सः तु तथा न न चिन्तयति यत् परमात्मा बहुदूरे कुत्रचित् आकाशे वर्तते कुत्रचित् स्वर्गे वर्तते इति तथा न चिन्तयति त स तु किं परमात्मा मम तु बन्धुः अस्ति बन्धुः अस्ति बन्धु अस्ति तं प्रति अहं मम हृदयस्य वेदनां वक्तुं शक्नोमि अयं सम्बन्धः तात्कालिकसम्बन्धः नास्ति परमात्मना सह सम्बन्धः तात्कालिकसम्बन्धः नास्ति निरन्तरेण सः सम्बन्धः वर्तते अतः अस्माभिः परमात्मना सह य तादृश आत्मीयसम्बन्धः वर्धनीयः यदा आत्मीयसम्बन्धः वर्धते तदानीं तत्र शरणागतिः इति अपि शरणागतिः अपि भवति आत्मीयसम्बन्धस्य परिणामः कः इति चेत् शरणागतिः यतः बालकः मातरं प्रति तस्य आत्मसमर्पणं वर्तते यतो यतोहि सः चिन्तयति माता मम कृते यत् किमपि करोति सा सम्यक् एव करोति किमपि मम हानिः हानिं न करोति इति कृत्वा यथा शिशोः मातरं प्रति या श्रद्धा अपि च प्रीतिः वर्तते समानरीत्या मनुष्याणाम् अपि परमात्मानं प्रति तादृशी समानरीत्या प्रीतिः श्रद्धा यदा वर्तते तदानीं शरणागतिः अपि स्वयमेव आगच्छति इति अयमेव कुञ्चिका अस्माकं परमात्मना सह कीदृशसम्बन्धः बहवः सम्बन्धः भवितुम् अर्हन्ति लोके इत्युक्ते अस्मिन् लोके यः कोऽपि पुरुषः अस्ति तस्य परमात्मन सह कश्चन सम्बन्धः तु अवश्यम् अस्ति एव परन्तु सः सम्बन्धः भिन्नभिन्नरीत्या भवितुम् अर्हति यः नास्तिकः अस्ति जगति नास्तिकाः अपि सन्ति ये तत्र परमात्मनि तस्य विश्वासः नास्ति तादृशनास्तिकः सः किं करोति इति चेत् सः अपि नास्तिकः अपि परमात्मनः विषये ज्ञातुम् इच्छति परन्तु तस्य यद्यद् यद्यद् जनैः यद् उच्यते धार्मिकजनैः यद् उच्यते अथवा रिलिजन् मध्ये यद् उच्यते तद् श्रुत्वा तस्य तृप्तिः न भवति इत्युक्ते परमात्मनः विषये यत्किमपि वदन्ति तत्तु तस्मिन् तु भावजडता अस्ति डाग्मेटिक् डेफिनिशन्स् अस्ति इति कृत्वा तस्य विश्वासः नास्ति इति कृत्वा सः किं करोति सः वदति ओ परमात्मा एव नास्ति इति सः वदति इति कृत्वा तस्य मनसि शङ्का भवति सर्वदा संशयः भवति इति कृत्वा संशय सर्वदा संशयः भवति इति कृत्वा सः परमात् परमात्मनि तस्य अङ्गीकारः नास्ति परन्तु सः अपि पुरुषः यः नास्तिकः अस्ति सः अपि पुरुषः यदा सङ्कटः आगच्छति यदा तत्र कश्चन क्लेशः आगच्छति कष्टम् आगच्छति तदानीं सः किं करोति तदानीं स सः अपि परमात्मनि परमात्मानं आह्वयति ओ कुत्र मम सहायं करोतु इति सः अपि आह्वाहयति परन्तु बहिः न वदति ये नास्तिकाः सन्ति बहिः न वदति ओ मया एवं पृष्टमिति न वदति परन्तु तस्यापि परमात्मना सह कश्चन सम्बन्धः तु अवश्यमस्ति परन्तु बाह्यरीतेन बाह्यरीत्या सः किं करोति इति चेत् ओहो परमात्मा नास्ति इति सः वदति परन्तु तस्यापि परमात्मना सह कश्चन सम्बन्धः तु अवश्यमस्ति अन्यसम्बन्धः कः कथं भवितुमर्हति ये जनाः चिन्तयन्ति परमात्मा आकाशे अस्ति स्वर्गे अस्ति कुत्रचित् अस्ति इति चिन्तयन्ति तस्य तेषां मनसि भीतिः भवति ओ यदि अहं किमपि अनुचितं करोमि तर्हि परमात्मा मम मां दण्डयति इति इति चिन्तयति इति कृत्वा तस्यापि तादृश कश्चन सम्बन्धः अस्ति परमात्मना सह परन्तु तत्र भावजटता अस्ति यतोहि सः चिन्तयति परमात्मा कुत्रचित् आकाशे अस्ति अथवा उपरि अस्ति इति सः चिन्तयति तत्र तादृश तादृश तादृशसम्बन्धः यः अस्ति स तु भवजडतायाम् आधारीकृत्य अस्ति अपि च अन्यः सम्बन्धः कथं भवितुमर्हति इति चेत् सः परमात्मा महा सर्वमहान् अस्ति सः तु कुत्रचित् कुत्रचित् कुत्रचित् अस्ति यथा मन्दिरे अस्ति अथवा कुत्रचित् अन्यत्र अस्ति इति चिन्तयति परमात्मा तु सर्वत्र अस्ति खलु परन्तु तादृशी चिन्ता यद् तादृश तादृशचिन्तनं यत् परमात्मा एकत्र एव अस्ति अन्यत्र नास्ति इति कृत्वा मया तु यः पुरोहितः अस्ति अथवा यः मध्ये अस्ति मध्यस्थः तत्र तेन तेन सह अथवा तया किं तेन द्वारा एव मा मम परमात्मना सह सम्बन्धः भवितुमर्हति मम साक्षात् सम्बन्धः न भवितुमर्हति मध्ये तु मध्यस्थः कश्चन अस्ति तेन द्वारा एवम मम सम्बन्धः अस्ति इति केचन जनाः मन्यन्ते इति तादृशसम्बन्धः अपि भवितुम् अर्हति यतोहि साक्षात् सम्बन्धः नास्ति परन्तु अन्येन पुरुषेण सह सम्बन्धः तादृशपुरुषस्य परमात्मना सह सम्बन्धः इति केचन जनाः मन्यन्ते अपि अन्यः सम्बन्धः गुरुशिष्यसम्बन्धः अपि भवितुम् अर्हति कश्चन गुरुः अस्ति अन्यः शिष्यः अस्ति तर्हि तत्र तु अनयोः मध्ये काचित् तत्र सीमारेखा भवति इत्युक्ते एवमेव अस्माभिः कर्तव्यम् एवं न कर्तव्यम् इति तत्र सीमारेखा भवति इत्युक्ते कोड् आफ़् डिसिप्लिन् तत्र भवति अतः बहु सामीप्यं न भवति गुरुशिष्ययोः मध्ये बहु सामीप्यं न भवति यतोहि तत्र किञ्चित् तत्र किं तत्र साम्य समीपस्थसम्बन्धं वयं न अनुभवामः गुरुशिष्ययोः मध्ये इति अयमपि कश्चन सम्बन्धः अस्ति अन्यः सम्बन्धः अस्ति यस्य साधकस्य मनः मनः वर्धितम् अस्ति सः किं चिन्तयति परमात्मा मम पिता अस्ति इति स चिन्तयति सः चिन्तयति परमात्मा सर्वमहान – सर्वशक्तिमान् अस्ति सः एव सर्वोत्तमः अस्ति सः एव मम पिता अस्ति इति कृत्वा मम साक्षात् सम्बन्धः अस्ति तेन सह अतः मम कोऽपि तत्र क्लेशः अस्ति अथवा कष्टम् आगच्छति चेत् अहं तेन सह साक्षात् सम्भाषणं कर्तुं शक्नोमि संवादं कर्तुं शक्नोमि इति कश्चन चिन्तयति सः एकः सम्बन्धः भवितुम् अर्हति किम् तर्हि अन्यः कोऽपि अन्यः कोऽपि भवति यः साधकः यस्य मनः इतोऽपि वर्धितम् अस्ति तर्हि सः किं चिन्तयति इति चेत् सः चिन्तयति मम तु परमात्मना सह बहु बहु अस्ति सः मम बन्धुः अस्ति मम बन्धुः अस्ति तस्य विषये मम संशयः एव नास्ति संशयः एव नास्ति सः मम मित्रम् अस्ति आत्मीयसम्बन्धः अस्ति बहु बहु आत्मीयसम्बन्धः अस्ति इति कृत्वा सः किं करोति इति चेत् सम्पूर्णतया शरणागतिं करोति सम्पूर्णतया समर्पणं करोति मम कृते किमपि नास्ति यदा तत्र द्रौपदी महाभारते द्रौपदी यदा तस्य तस्याः वस्त्राभरणं वस्त्राहरणं यदा जातं तदा सा कृतवती इति प्रथमतया तु तत्र स्व हस्तेन वस्त्रस्य हस्ते वस्त्रं स्थापितवती अपि च कृष्णा कृष्णा इति सः आह्वानं कृतवती परन्तु अन्ततो गत्वा सा किं कृतवती सर्वं त्यक्तवती सर्वं त्यक् त्यक्त्वा तत्र हस्ते यद्वस्त्रमस्ति तदपि त्यक्तवती त्यक्त्वा सा किं कृतवती सा केवलं कृष्णस्य स्मरणं कृतवती तदानीं सः किं कृतवती मम कृते किमपि नास्ति मम हस्ते किमपि नास्ति अहं सम्पूर्णतया समर्पणं करोमि भव मम मित्रम् अस्ति इति यदा तस्य तस्य तादृशी व्यवहारः यदा यदा अभवत् तदानीमेव तत्र परमात्मा तस्य कृते झटिति तस्मिन्नेव क्षणे आगत्य तस्य तस्याः रक्षणं परमात्मना कृतम्。खलु तर्हि अस्माभिः एतेषु बहुषु सम्बन्धेषु कीदृशसम्बन्धः अस्माभिः वर्धनीयः इति चेत् परमात्मना सह अस्माकं तु समीपस्थः सम्बन्धः बहु बहु समीपस्थसम्बन्धः अवश्यं भवेत् तदानीम् एव समर्पणभावः अवश्यं भवति यतोहि अस्माकं साधकस्य लक्ष्यं किम् इति चेत् अस्माकम् ऐक्यं जीवात्मनः परमात्मना सै सः ऐक्यम् एव योगः इति अस्माभिः चर्चितं खलु तर्हि ऐक्यप्राप्तिः एव अस्माकं लक्ष्यं तादृश ऐक्यप्राप्तिः शरणागतिं विना कदापि न सम्भवति शरणागतिः कदा भवति इति चेत् शरणागतिः तदा एव भवति यदा अस्माकं परमात्मना सह समीपस्थः सम्बन्धः भवेत् आत्मीयः सम्बन्धः भवेत् परमात्मनां विना अहं न भवितुम् अर्हामि इति तादृशी भावना यदा भवति तदानीं शरणागतिः तु तथैव तस्मिन् क्षणे एव आगच्छति यदा तादृशी भावना मनसि भवति तदानीं शरणागतिः अपि आगच्छति यथा शिशोः विषये अथवा बालकस्य विषये मातरं प्रति यादृशी श्रद्धा भक्तिः अपि च विश्वासः अस्ति तादृशविश्वासः अस्माकं कृते अपि अवश्यम् एव आयाति तदर्थं शरणागती तत्र किं समीपस्थसम्बन्धस्य वर्धनार्थम् अस्माभिः किं करणीयम् इति चेत् अवश्यमेव अस्माभिः साधना करणीया साधना साधना अस्माभिः अध्येतव्या इति चेत् किं करणीया किं करणीयम् इति चेत् तदर्थं तत्र साधना कथं करणीया इति अस्माभिः अवश्यम् अध्येतव्यं तदर्थं तत्र डिसेम्बर् मासे अस्माकं शिबिरः अस्ति तत्र अवश्यं भवद्भिः अवश्यं तत्र आगन्तव्यं तदानीं ता साधना कथं करणीया इति वयं ज्ञातुं शक्नुमः तदानीं ता वयमपि तादृश आत्मीयसम्बन्धः वर्धयितुं शक्नुमः सम्बन्धं वर्धयितुं वयमपि शक्नुमः इति उक्त्वा वयम् इदानीम् अत्र अस्माकं करपत्रं प्रति गच्छामः कोपि प्रश्नः वर्तते वा समीचीनं तर्हि अत्र महोदये परमपुरुषः सर्वं जानाति एव परन्तु वयं सर्वे अत्र प्रार्थनां कुर्मः एतत् ददातु तत् ददातु सः सर्वं जानाति एव परन्तु वयं सर्वे प्रार्थनां कुर्मः मम पुत्र्याः विवाहं करोतु मम पुत्रः विषये किञ्चित् करोतु धनं ददातु अनन्तरं यात्रा करणीयम् अत्र धनं ददातु इति सर्वा सर्वे प्रार्थनाः वयं कुर्मः एव आम् अस्तु आं सत्यं भगिनि इत्युक्ते तत्र वस्तुतः प्रार्थना इति यद्वयं कुर्मः तत्तु वास्तविक वास्तविक वास्तविकी भक्तिः नास्ति प्रार्थनां कृत्वा वयं किं वदामः परमपुरुषः भवान् तु अन्यम् अन्यस्य कृते सर्वं दत्तवान् मम कृते न दत्तवान् अन्यस्य पुत्र्याः विवाहः जातः मम पुत्र्याः विवाहः न जातः मम पुत्रस्य तत्र किम् अस्ति सम्यक् तत्र शिक्षणं न जातम् इति एवं रीत्या वयं सर्वदा वयं प्रार्थनां कृत्वा ददा ददातु ददातु इति वदामः खलु तत्तु भक्तिः नास्ति सा तु भक्तिः भक्तिः एव नास्ति प्रार्थना तु भक्तिः एव नास्ति वास्तविक यतोहि परमपुरुषः तु सर्वं जानाति अतः किमर्थं वक्तव्यं यत् ओ भवान् एतद् न दत्तवान् तद् न दत्तवान् इति किमर्थं वक्तव्यम् इत्युक्ते तस्य उपरि आरोपः अस्ति खलु वयं वदामः भवान् पक्षपातं करोति तस्य कृते दत्तवान् मम कृते दत्तवान् तस्य कृते सर्वम् अस्ति मम कृते नास्ति यदा वयं वदामः तदानीं परमपुरुषपर्शं प्रति आरोपः अस्ति खलु भवान् पक्षपातं करोति इति आरोपः अस्ति अतः तादृशी प्रार्थना तु भक्तिः नास्ति अतः अस्माभिः तादृशी प्रार्थना न करणीया मम कृते ददातु ददातु इति कदापि न तदापि कदापि तथा न प्रार्थना न करणीया यतोहि सा सर्वं जानाति अतः यद्वयम् इतो इदानीं वयं चिन्तयामः इदानी, एतदेव मम कृते अपेक्षितम् अस्ति इति कृत्वा वयं पृच्छामः तद् ददातु परन्तु तस्यापि अपेक्षया इतोपि सर्वो सर्वश्रेष्ठः किमपि अस्ति तदेव दातुमिच्छति सः अस्माकं कृते यद्वयम् इच्छामः तस्य कृते अपि यद् अस्माकं कृते यद् सम्यक् भवति तदेव दातुं सः इच्छति अतः किमर्थम् अस्माभिः प्रष्टव्यं यत् एतद् ददातु तद् ददातु इति यतो हि स जानाति किं दातव्यम् इति स जानाति कस्मिन् समये दातव्यम् इति अपि स सः जानाति कस्मिन् समये दातव्यं तस्मिन् समये एव ददाति अतः किमर्थं प्रष्टव्यम् अतः तादृशी प्रार्थना सम्यक् प्रार्थना तादृशी प्रार्थना अस्माभिः न करणीया तत्तु तत्र परमात्मना परमात्मानं प्रति पक्षपातः इति आरोपः भवति अतः अस्माभिः किं करणीयम् इति चेत् अस्माभिः आत्मसमर्पणं करणीयं भवान् यद्ददाति तदहं स्वीकरोमि भवान् यत्किमपि ददाति मम कृते तत् सम्यक् अस्ति भवान् यत्किमपि द ददाति मम मम लाभदायकमेव भवति मम हानेः विषये भवान् कदापि न चिन्तयति तादृशी विश् तादृशविश्वासः यदा भवति खलु तदानीं प्रार्थनायाः आवश्यकता एव नास्ति यतोहि सः यत्किमपि ददाति तद् तदस्माकं कृते सम्यक् एव तस अस्ति तस्माकं लाभदायकमेव अस्ति यद्वयं चिन्तयामः यद्वयं पृच्छामः तस्यापि अपेक्षया सः यद् अस्माकं कृते श्रेष्ठम् अस् श्रेष्ठं वर्तते तदेव ददाति इति कृत्वा किमर्थं प्रष्टव्यम् इति परन्तु महोदय युगपत् अन्यप्रश्नः अपि उदेति अत्र hmm. सः तु मम पिता सर्वतु मम माता सर्वं मम देवदेव इति अत्र अत्र उक्त उक्तवन्तः शिशुः hmm. सर्वदा माता अत्र पीडयति निन्दयति एतत् सर्वं कर्तुमपि अत्र शक्यते परन्तु शिशवः सर्वदा तस्याः कृते एव गच्छन्ति अनन्तरम् hmm. एतत् ददातु इति पृच्छति तदेव अस्माकं कृते अपि भवति इति अन्यचिन्तनमपि भवति खलु महोदय आमाम् इति अस्ति इति अस्ति इत्युक्ते यदा वयं यदा वयं भक्तिमार्गे न स्मः यदा वयम् एतत् सर्वम् अस्माकं जीवनस्य लक्ष्यं किम् अनन्तेषा अस्माकं लक्ष्यम् अस्ति अनन्तस्य प्राप्तिः अस्माकं लक्ष्यम् अस्ति मानवस्य धर्मः कः परमात्मनः प्राप्तिः एव अस्माकं धर्मः इति एतत् सर्वं वयं तदानीं वयं प्रार्थना सम्यक् नास्ति इति वयम् अवगच्छामः परन्तु यदा एतत् सर्वं न अवगच्छामः मानवधर्मः कः इत्यपि न अवगच्छामः यदा पशुजीवने वयं व्यस्ताः भवामः तदानीं तु यद्भवती वदति सम्यक् एव शिशोः एव एव अस्ति अवस्था अस्ति अस्माकं तदानीं वयं परमात्मनं प्रति प्रार्थनामपि कुर्मः सर्वं कुर्मः पृच्छामः एतद् ददातु तद् ददातु इति तत्तु अस्ति परन्तु यदा वयम् अवगच्छामः यत् अस्माकं लक्ष्यं किम् यः साधकः अस्ति तस्य विषये अहं वदन्ती अस्मि यः साधकः अस्ति तस्य कृते तत्र भक्तिः इत्युक्ते का इति चेत् प्रार्थना न करणीया प्रार्थनायाः आवश्यकता नास्ति यतोहि सः सर्वं जानाति यदि सः न जानाति तदानीं प्रष्टव्यम् एतद् ददातु तद्ददातु इति परन्तु सः सर्वं जानाति यदस्माकं कृते लाभदायकं तदेव ददाति इति कृत्वा तादृशी तादृशः विश्वासः श्रद्धा यदा भवति तदानीं प्रार्थनायाः आवश्यकता एव नास्ति किं वयं प्रार्थयामः यत्किमपि वयं प्रार्थयामः लौकिकविषये एव प्रार्थयामः खलु अधिकं धनं ददातु अधिकम् इ इतोपि एकः एकं गृहं ददातु एतदेव प्रार्थयामः खलु किं वयं प्रार्थयामः लौकिकविषयमेव वयं प्रार्थयामः तत्तु सर्वं क्षणिकमस्ति किमर्थं तस्मिन् विषये वयं प्रार्थनां किमर्थम् अस्माभिः करणीयं प्रार्थना किमर्थं करणीया इति यः साधकः अस्ति सः अवगच्छति यः साधकः नास्ति तद् सम्यक् अस्ति तस्य विषये यद् भवती वदति सर्वं सम्यक् अस्ति यतोहि तस्य अज्ञानम् अस्ति सर्वं न जानाति तत्र मानवधर्मः कः जीवनस्य लक्ष्यं किम् इति सः न जानाति इति कृत्वा सः पृच्छन् एव भवति एतद्ददातु तद्ददातु इति परन्तु यः जानाति यः योगनिश्च जीवने प्रविष्टः अस्ति अपि च सः जानाति यत् मम लक्ष्यं किं मम जीवनस्य लक्ष्यं किम् इति यः जानाति यः साधकः अस्ति यः तस्मिन् बहु बहु नियमेन नियमा अत्र ये ये नियमाः अस्ति योगनिष्ठजीवने तस्य नियमानां पालनं यः सम्यक्तया करोति अपि च तस्य श्रद्धा अस्ति परमात्मनि अपि च यस्य आत्मीयसम्बन्धः अस्ति परमात्मना सह तस्य कृते प्रार्थनायाः आवश्यकता नास्ति परन्तु लोके ये जनाः पशुजीवने व्यस्ताः सन्ति तं प्रति एतद् वयं वदामः चेत् ते इति विषयः अस्ति किं विजय भगिनि आम् आं महोदय तर्हि तर्हि ब्रह्म किम् अस्ति इति विषयः विषये चर्चा चर्चाम् आरब्धवन्तः अस्माभिः उक्तं तद् ब्रह्म इत्युक्ते चैतन्यम् समष्टिचैतन्यं भूमचैतन्यम् इति सर्वम् अस्माभिः उक्तं तर्हि तत्र ब्रह्मणि अंशद्वयं वर्धते प्रकृतिः पुरुषः पुरुषः स्थितिशक्तिः इत्यपि वयं वदामः प्रकृतिः तु तत्र अद्वितीया अद्वितीय अद्वितीयं बलम् अथवा ऊर्जा इति वयं वक्तुं शक्नुमः सा प्रकृतिः किं करोति इति चेत् पुरुषं सा करोति अनयोः गाढतया सम्बन्धः अस्ति अनयोः पृथक्करणं न शक्यते तर्हि सर्वदा प्रकृतिः पुरुषेण सह एव वर्तते तयोः पृथक्करणं कदापि न शक्यते यदा अग्निः वर्तते अग्नौ दहनशक्तिः यथा वर्तते अनयोः गाढतया सम्बन्धः अस्ति अविनाभावसम्बन्धः अस्ति तयोः पृथक्करणं न शक्यते एवं पुरुषस्य प्रकृते प्रकृत्या सह यः सम्बन्धः प्रकृतेः पुरुषेण सह यः सम्बन्धः सः सम्बन्धः अविनाभावसम्बन्धः तयोः पृथक्करणं न शक्यते अनयोः द्वयोः मिलित्वा ब्रह्म इति नामकरणम् अस्ति अस्माभिः अपि चर्चितं यत् परमात्मनः तत्र पुरुषस्य परमपुरुषस्य आकारः नास्ति केवलम् अस्माभिः अवगन्तुं शक्नुमः कथं परमात्मनः ज्ञानं भवति इति चेत् साधनाद्वारा एव अस्माकं तत्र सम्बन्धः आत्मीयसम्बन्धः भवति परमात्मनः परमात्मना सह तर्हि प्रकृतिः का इति चेत् प्रकृतिः ऊर्जा अस्ति शक्तिः अस्ति सा शक्तिः शिवस्य शक्तिः अस्ति शिवशक्त्यात्मकं ब्रह्म शक्तिः शिवस्य शक्तिः सा शक्तिः अपि तस्यापि अकारः नास्ति शक्तिमपि वयं द्रष्टुं न शक्नुमः अग्निमपि द्रष्टुं न शक्नुमः अग्नेः शक्तिमपि वयम् अग्निं द्रष्टुं शक्नुमः परन्तु अग्नेः शक्तिं वयं द्रष्टुं न शक्नुमः एवं प्रकृतेः ये गुणाः सन्ति तेषां गुणानां प्रभावं वयम् अनुभवितुं शक्नुमः परन्तु गुणानां साक्षात् दर्शनं प्रकृति भवति प्रकृतिः शक्ति शक्तिः सूक्ष्मा वर्तते प्रकृति अपि सूक्ष्मः प्रकृतिः अपि सूक्ष्मा पुरुषः अपि सूक्ष्मः इति कृत्वा ब्रह्म इत्यपि सूक्ष्मवस्तु एव ब्रह्म इति सूक्ष्मवस्तु एव ब्रह्म इत्यस्यापि आकारः नास्ति अपि च अस्माभिः किम् उक्तं तद् तत्र लोके यत्किमपि अस्ति तस्य सर्वेषाम् एकः आधारः अस्ति सः आधारः परमात्मा अस्माकं मनः ये अस्ति मनसः त्रयः अंशाः सन्ति इति वयं जानीमः त्रयाणाम् अंशानामपि तत्र आधारः अस्ति परमात्मा एव परमात्मानं विना पुरुषं विना परमपुरुषं विना तत्र मनः न भवितुमर्हति मनसः मनः तु स्वतन्त्रं नास्ति पुरुषम् आधारीकृत्य एव अस्ति परन्तु अस्मिन् जगति किं किं वस्तु स्वतन्त्रं वर्तते इति चेत् केवलं पुरुषः एव स्वतन्त्रः अस्ति सः किमपि कमपि आधारं स्वीकृत्य नास्ति सा सर्वदा स्वतन्त्रः अस्ति अपि च अस्माभिः दृष्टं तत् ब्रह्मणः आदिः नास्ति अन्तः अन्तः अपि नास्ति पुरुषस्य आदिः नास्ति अन्तः नास्ति एवं प्रकृतेः अपि आदिः नास्ति अन्तः नास्ति पुरुषेण प्रकृतेः निर्माणं इति नास्ति प्रकृतिः सर्वदा अस्ति पुरुषः अपि सर्वदा अस्ति पुरुषः तु स्वस्य स्वस्य अस्तित्वस्य ज्ञानमपि तस्य नास्ति निर्गुणपुरुषस्य तस्य स्वस्य स्वस्य अस्तित्वस्य ज्ञानमपि नास्ति अतः कथं वा निर्माणं कर्तुं सः इति कृत्वा तत्र पुरुषेण प्रकृतेः निर्माणं न कृतं अपि कारणरहिता वर्तते पुरुषः अपि कारणरहितः प्रकृतिः पुरुषः द्वयमपि अनादि अनन्तसत्ता तर्हि तयोः मिलित्वा ब्रह्म इति नामकरणम् अस्ति ब्रह्म अपि कारणरहितं वर्तते इतः अग्रे अस्माभिः गन्तव्यं तर्हि किं सरला भगिनी पठितुमिच्छति वा अस्तु भगिनि नमस्कारः नमस्कारः भगिनि ब्रह्म नादि ततः ब्रह्म नादि अथवा मूलकारणरहित वर्तते अस्य आरम्भः नास्ति किन्तु भ्रमण अन्तः कुत्र भ्रमण अन्तः अस्ति वा यदि अस्ति तर्हि अस्माभिः ज्ञातव्यं यत् एतत् कियत् विशालम् अस्ति एतत् ज्ञातुम् अस्माभिः भ्रमणपरिमाणं मापनीयं मित्र अवस् भिन्नवस्तूनां मापनार्थं भिन्नानि यन्त्राणि आवश्यकानि भवन्ति यथा भूमिमापनार्थं दण्डशृङ्गलां शृङ्गलानाम् आवश्यकता वर्तते अन्न अन्न अन्न अन धान्य अन्नधान्यमापनार्थं मापिका भारा च सन्ति अस्माभिः तापमापनार्थं शीतोषणमापनं मापनयन्त्रं प्रयुज्यते वायुपरिमण्डली मण्डलीयशक्तेः मापनार्थं वायुमापनयन्त्रस्य उपयोगः आवश्यकं यन्त्रं प्रमेयस्य वस्तुनः स्वरूपम् आश्रित्य भवति यथा अस्माभिः पूर्वमेव द्रष्टं ब्रह्मसूक्ष्मं सूक्ष्मं सैद्धान्तिक कथनमात्रं ब्रममापनार्थम् आवश्यकं यन्त्रसूक्ष्मस्यात् ब्रह्म अपेक्षया सूक्ष्मतरं किमपि अन्वेषणीयं ब्रह्मणमापनार्थम् अस्तु ब्रह्म अनादि अस्ति तस्य अन्तः अस्ति वा न इति द्रष्टव्यम् अ ब्रह्मस्य आरम्भः नास्ति इति वयं जानीमः भ्रम कियत विशालमस्ति तस्य मापनार्थं कोऽपि यन्त्रम् अस्ति वा इति यदि प्रश्नः उदेति तदा वयं यदि लौकिकव्यवहारे पश्यामः भिन्नभिन्नवस्तूनां मापनार्थं भिन्नभिन्न भिन्नभिन्नयन्त्राणि भिना भिन्नानि यन्त्राणि संति. तेषाम् उपयोगमपि भवति यथा आ, वयं भूमिमापनार्थं दण्डमापनं भवति यदि अन्नधान्यम् इति मापनार्थं भा भवति ताप मापनार्थम् इति धर्मामि च इति शीतोषणमापनं मापनार्थं वायु मापनस्य यन्त्रम् अस्ति इति बहूनि यन्त्राणि सन्ति किन्तु भ्रमस्य विशाल् यत् अस्ति तस्य किं कः यन्त्रं भवति किं यन्त्रं भवति इति यदि वयं चिन्तयामः तत् भ्रम अपि चिन्तनीयवस्तु नास्ति अतिसूक्ष्मम् अस्ति तस्य यन्त्रमपि सूक्ष्मं भवेत् सूक्ष्मतर भवेत् न तु सूक्ष्मं तु सूक्ष्मतर सूक्ष्मतम इति भवेत् यन्त्रमपि इदानीं सिद्ध किं तत् सूक्ष्मतर वा सूक्ष्मतमयन्त्रं भवति इति अहं चिन्तयामि अग्रे आगच्छति आमां भगिनि सम्यक् सम्यक् इत्युक्ते अस्माभिः किं तत्र निगमितम् इति चेत् ब्रह्म ब्रह्म कारणरहितं वर्तते ब्रह्म स्वतन्त्रं वर्तते अनादिवस्तु अस्ति इति अस्माभिः चर्चितम् परन्तु इदानीं प्रश्नः अस्ति तस्य अन्तः अस्ति वा अनादि अस्ति भवतु तर्हि तस्य अन्तः देशकाल आमाम् आम् आम् तदेव तद् निर्णयः इति इति इति कृत्वा तस्य अन्तः अस्ति वा तस्य परिमाणम् अस्ति वा तस्य परिमाणस्य मापनं शक्यते वा इति चेत् तदानीम् अस्माभिः किम् इति चेत् मापनार्थं यन्त्रम् अपेक्षितम् अस्ति ब्रह्मणः परिमाणम् अस्ति तस्य मापनार्थं यन्त्रम् अपेक्षितम् तर्हि जगति यत्किमपि अस्ति तस्य मापनार्थं किमपि तत्र यन्त्रं भवति खलु तत्र स्वर्ण चेत् तस्य मापनार्थं तादृशरीत्या एकं यन्त्रं भवेत् अपि च यदि तत्र अन्यवस्तु अस्ति तस्य मापनार्थं तादृशयन्त्रम् अपेक्षितम् अस्ति सूक्ष्मवस्तु अस्ति चेत् तत्र यन्त्रम् इतोपि सूक्ष्मतरं भवेत् परन्तु इदानीं तत्र प्रश्नः अस्ति भ्रमणः विषये भ्रमणः विषये तादृशयन्त्रमस्ति वा इत्युक्ते ब्रह्मणः तन्मात्राणि न सन्ति भ्रमणः साक्षात्कारः इन्द्रियैः न न शक्यते Uh, इन्द्रैः न शक्यते यतोहि तत्र ब्रह्म सूक्ष्मवस्तु अस्ति ब्रह्मणि तन्मात्राणि न गच्छन्ति इति कृत्वा तस्य इन्द्रि इन्द्रियैः साक्षात्कारः न शक्यते तर्हि आकाशस्य तु साक्षात्कारः शक्यते यतोहि आकाशे शब्दतन्मात्रा अस्ति इति कृत्वा शब्दद्वारा आकाशस्य शब्दस्य आश्रयः आकाशः इति वयं अवगन्तुं शक्नुमः एवम् अत्र यत्र स्प स्पर्शतन्मात्रा अस्ति कस्यचित् स्पर्श तन्मात्रा अस्ति तर्हि तत्र स्पर्शद्वारा तस्य मापनं शक्यते परन्तु ब्रह्म तु बहु अस्ति इन्द्रियग्राह्यः नास्ति इन्द्रियग्राह्यं नास्ति तर्हि तस्य मापनार्थं कीदृशयन् यन्त्रम् अपेक्षितमस्ति ब्रह्म तु मनसः अपि अपेक्षया इतोपि सूक्ष्मं वर्तते भ्रमा इस् एक्चुलि सेटलर् देन् द मैण्ड् तर्हि तस्य मापनार्थं यन्त्रम् अस्ति वा अपेक्षितम अपेक्षितमस्ति इति अत्र प्रश्नः याति तस्य मापनं शक्यते वा इति वस्तुतः प्रश्नः तर्हि इदानीम् अग्रे गच्छामः तत्र किं विजयाभगिनी पठितुम् इच्छति वा आं पठामि अस्मिन् अस्मिन् जगति सर्वाणि द्रव्याणि पञ्चसु मौलिककारे मौलिककारकेषु तत, तत त्वे, तत् तत् मौलिकतत्त्व मौलिकतत्त्वम् इत्युक्ते पञ्चभूतानि फैव् पञ्चभूतानि मौलिकतत्वं अस्तु महोदय तत्त्वेषु वा वर्गीकर्तुं शक्यन्ते एतानि द्रव्याणि आकाशः आकाशसकाशतत्त्वं वायुः वायुतत्त्वम् अग्निः तेजस्तत्त्वं जलम् आपतत्वम् अप्तत्वं क्षितिः अप्तत्वं क्षितिः स्थितितत्त्वम् इति वा भवितुं शक्नोति <laughs> <तन्मंत्राना, laughs> <तन्मात्रा, laughs> उपस्थितिः स्थूलपदार्थान् सूक्ष्मात् वृत्करोति स्थूलपदार्थाः सगदा तन्मात्रयुक्ताः भवन्ति परन्तु सूक्ष्माः तु मात्ररहितः भवति अतः यत्किमपि अधिकसङ्ख्यायां तन्मात्रैः युक्तं भवति भवति तत् स्थूलतरं भविष्यति शब्दः ध्वनिः स्पर्शः सम्पर्कः रूपम् आकारः रसः रुचिः गन्धः ग्राणं च पञ्चतन्मात्राणि सन्ति आकाशः वा आकाश आकाशतत्त्वं वा ग्रहा ग्रहाणां वायुमण्डलेभ्यः परं सम्भाविते सूक्ष्मे वायुमण्डले किमपि न भवति यत् परिदृश्यमानं भवति तदापि आकाशः शब्दतन्मात्रं वहति अतः स्थूलः इति युज्यते वायोः तन्मात्रद्वयं विद्यते शब्दः स्पष्टः च अर्थात् वायुः शब्दं वहति अपि च तस्य अनुभूतिः अपि स्यात् वायुः अथवा स्थूलतरः आकाशस्य अपेक्षया अग्निः जलं स्थितिः च सर्वे इतोपि स्थूलतमाः सन्ति यतः ते दृश्यन्ते तेषाम् अन्यतन् अन्यतन्मात्राणि अतिरिच्य रूप तन्मा रूपतन्त्रमात्रं रूपतन्मात्रमपि अस्ति अतः <coughs> येषु पञ्चसु पञ्चसु भूतेषु तत्त्वेषु वा द्रव्यस्य द्रव्यस्य अस्तित्वं भवितुम् अर्हति तानि सर्वाणि अपि स्थूलाः सन्ति एतेषु न किञ्चिदपि सूक्ष्मयन्त्रं कर्तुं शक्यते येन सूक्ष्मभ्रमणः परिमाणं मातुं शक्यते इदानीमत्र तन्मात्रविषये वयम् अत्र दृष्टवन्तः किं किम् अस्ति इति पञ्चसु अत्र किमस्ति पञ्च पञ्चभूतमिति सन्ति वायु प्रथमम् आकाशः अनन्तरं वायुः अग्निः अपः पृथिवी इति वयं सा अत्र वक्तुं शक्नुमः एव इदानीमत्र आकाशः स्वीकुर्मः चेत् अत्र आकाशतत्त्वम् अस्ति वायुः वायुतत्त्वम् अग्निः तेजस ते तेजस्तत्त्वं जलं स्वीकुर्मः चेत् अप्तत्वम् अस्ति क्षितिः इति क्षितितत्त्वं भूमिः इति अत्र सन्ति एव इदानीं तन्मात्राणाम् उपस्थितिः स्थूलपदार्थान् सूक्ष्मात् अत्र भवति इति किम् अस्ति चेत् अत्र आकाशः स्वीकुर्मः चेत् स्थूलपदार्थाः सर्वदा तन्मात्रयुक्ताः भवन्ति अत्र प्रत्येकं गुणः भवति इति परन्तु सूक्ष्माः तु तन्मात्ररहिताः एव भवति अत्र द्रष्टुं न शक्नुमः रूपेना अस्ति अत्र अतः यत् किमपि अधिकसङ्ख्यायां तन्मात्रि युक्तं भवति तत् स्थूलतरं भवति भविष्यति इदानीम् अत्र शब्दः कुत्र अस्ति शब्दः इत्युक्ते ध्वनिः यत्र कुत्र द्रष्टुं शक्यते चेत् आकाशे अनन्तरम् अत्र स्पर्शः वायोः अस्ति अनन्तरं रूपं कुत्र भवति चेत् आकारः तेजस् अग्नि इति अत्र वयं स्वीकुर्मः रसः अत्र रुचिः भवति रुचिः कुत्र भवति चेत् जलमस्ति चेत् तत्र रुचिः रुचिः दण्डः घ्राणं एतत् तन्मात्रमस्ति घ्राणमिति दण्डः पृथिव्यां वयं स्वीकुर्मः इति च पञ्चतन्मात्राणि सन्ति एव वयं सर्वे जानीमः एव एतत् विषये आकर्षः वा आकाशतत्त्वं वा ग्रहाणां वायुमण्डलेभ्यः परं सम्भाविते सूक्ष्मवायुमण्डले किमपि न भवति यत् परिदृश्यमानं भवति तदापि आकाशः शब्दसन्मात्रं भवति एव इदानीम् स्थूलः इति उच्यते आकाशः द्रष्टुं शक्नुमः परन्तु अत्र स्थूलरूपम् अस्ति एव इदानीमत्र वायोः तन्मात्रद्वयं विद्यते किमर्थं चेत् तत्र पञ्चीकरणमस्ति द्वयोः मध्ये अनन्तरम् अत्र पञ्च भूतविषये शब्दः वस्त्रः आकारः अनन्तरं रसः गन्धः एतत् सर्वं स्थूलरूपेण सूक्ष्मरूपेण अस्ति एव अतः तत्र पञ्चीकरणमस्ति वायोः तन्मात्रद्वयं विद्यते एव अतः एव शब्दः स्पर्शः इति अनन्तरम् अत्र आकारः स्वीकुर्मः चेत् अत्र तत् विषये अपि अग्नेः विषये शब्दः अपि अस्ति स्पर्शः अपि अस्ति आकारः एतदपि अस्ति तदेव अत्र अर्थात् वायुः शब्दं वहति एव द्वयोः मिलित्वा पञ्चीकरणं तत्र सन्ति एव अपि च तस्य अनुभूतिः अपि स्यात् वायुः अतः स्थूलतरः स्थूलतरः आकाशस्य अपेक्षया वायुः अत्र द्रष्टुं न शक्नुमः सूक्ष्मरूपेण एव तिष्ठति परन्तु आकाशस्य अपेक्षया अत्र वायुः स्थूलतरः इति तत्र दत्तम् अग्निः जलं स्थितिः च सर्वे इतोपि स्थूलतमाः सन्ति एव यतः ते दृश्यन्ते एव तेषां अन्यतन्त्रमात्राणि तन्मात्राणि अतिरिच्य रूपतन्त्रमा मात्रम् अपि अस्ति अतः येषु पञ्चसु भूतेषु सत्त्वेषु वा द्रव्यस्य अस्तित्वं भवितुम् अर्हति द्वयोः मध्ये अत्र किमपि अत्र अस्ति अत्र द्रव्यस्य अस्तित्वं भवति भवितुम् अर्हति एव तानि सर्वाणि अपि स्थूलाः सन्ति अत्र द्रष्टुं शक्यते एव सूक्ष्मरूपेण नास्ति एतेषु न किञ्चिदपि सूक्ष्ममन्त्र सूक्ष्मयन्त्रं कर्तुं शक्यते येन सूक्ष्मब्रह्मणः परिमाणं मातुं शक्यते सूक्ष्मब्रह्मणः परिमाणं मातुं शक्यते अत्र ब्रह्मणः तु सूक्ष्मरूपेण अस्ति एव न मातुं शक्यते एतेषु न एतेषु यत्र तन्मात्रा वर्तते तैः सूक्ष्मब्रह्मणः परिमाणम् मातुं न शक्यते आम् आम् निश्चयेन भवतु हा सम्यक् सम्यक् भगिनी समीचीनतया उक्तवती इति स एव विषयः अस्ति इत्युक्ते क्रमेण वयं गच्छामः चेत् अत्र वस्तुतः पञ्चीकरणम् विषयः नास्ति तत्तु वर्तते अत्र तु पञ्चीकरणम् विषयः नास्ति परन्तु अत्र आकाशे क्रमेण वयं गच्छामः चेत् आकाशात् वायुः वायोः अग्ने अग्निः अग्नेः आप् आपः अभ्यः पृथ्वी इति क्रमः अस्ति तर्हि प्रथमतया ब्रह्मतः आकाशः आकाशः आगच्छति तदनन्तरम् आकाशात् वायुः वायोः आकाशा अग्निः अग्नेः आपः अद्भ्यः पृथ्वी तर्हि आकाशः आकाशे एकः एकं तन्मात्रा भवति एका तन्मात्रा भवति आकाशे तु शब्दतन्मात्रा भवति तदनन्तरं क्रमेण वयं गच्छामः चेत् अनन्तरं आकाशात् वायुः वायौ तन्मात्रा भवति तदनन्तरम् अग्निः अग्नौ तन्मात्रा भवति तदनन्तरं जले तन्मात्रा भवति अनन्तरं पृथ्व्यां सर्वाणि तन्मात्राणि भवन्ति पञ्चतन्मात्राणि भवन्ति इति क्रमेण वयं गच्छामः चेत् यत्र बहूनि तन्मात्राणि सन्ति तद् सः पदार्थः इतोपि स्थूलः भवति पूर्वस्य अपेक्षया इदानीं पृथिव्यां पञ्चतन्मात्राणि सन्ति इति कृत्वा पृथ्वी इतोपि स्थूलतमा अस्ति आकाशस्य अपेक्षया अथवा जलस्य अपेक्षया अन्येषाम् अपेक्ष अन्येषां भूतानाम् अपेक्षया पृथ्वी इतोपि स्थूलतमा इद इति वयं क्रमेण पश्यामः चेत् तदानीं तत्र जलं अग्नेः अपेक्षया इतोपि स्थूलतमम् अस्ति अग्निः वायोः अपेक्षया इतोपि स्थूलतमः अस्ति वायुः आकाशस्य अपेक्षया स्थूलतमः अस्ति अन्ततो गत्वा आकाशः एतेषाम् अन्येषां भूतानाम् अपेक्षया सूक्ष्मः वर्तते आकाशस्य अपि अपेक्षया ब्रह्म इतोपि सूक्ष्मः सूक्ष्मवस्तु यतोहि ब्रह्मणि तु तन्मात्राणि न सन्ति एव इति कृत्वा ब्रह्म इतोपि सूक्ष्मवस्तु अस्ति इति कृत्वा अन्ततो वयं किं वक्तुं शक्नुमः इति चेत् ब्रह्मणः मापनं शक्यते एतैः अत्र यद्यद् वस्तु अस्ति तत्तु पञ्च पञ्चभूतैः निर्मितानि लोके यानि वस्तूनि तानि पञ्चभूतैः निर्मितानि वस्तूनि तैः वस्तुभिः ब्रह्मणः मापनं शक्यतेवा वा इति चेत् न शक्यते यतोहि एतानि सर्वाणि वस्तूनि स्थूलानि सन्ति ब्रह्म तु बहुसूक्ष्मं वर्तते अतः सूक्ष्मवस्तुनः मापनं स्थूलवस्तुभिः न शक्यते इति अत्र दत्तमस्ति अवगम्यते कोपि प्रश्नः आम, आम, आम, आम अस्ति आम् आम् आम् धन्यवादः तर्हि अग्रे आ, आकाशः वायुः अग्निः जलं क्षिति वा द्रव्यव्यतिरिक्तम् अन्यत् तत्त्वं वर्तते इदम् अन्यत् तत्त्वं मनः अथवा अन्तःकरणम् अन्तर्मुक्तिमनोबलम् अस्ति यथा वयं पञ्चभूतानां परीक्षां कृतवन्तः तथैव मनसः परीक्षां कृत्वा मनः सूक्ष्मम् इति पश्यामः केवलं मनः मनः एव अभूतं भवितुम् अर्हति न तत्र तन्म तन्मा, तन्मात्राणि सन्ति इति पश्यते अतः अर्थात् केवलं मनः एव सूक्ष्मम् अन्यत् सर्वम् अन्यत् सर्वम् अस्मिन् प्रपञ्चे स्थूलम् अतः मनः इति एकमेव वस्तु यस्मात् ब्रह्ममा मापनयन्त्रं निर्मातुं शक्यते किन्तु मनसः तन्मात्रा अभावात् स्थूलं वा भौतिकं रूपं तस्मिन् आरोपयितुं न शक्यते मनसः श्रवणं स्पर्शनं दर्शनम् आस्वादनं ग्रहणं च न शक्यते एतेषां गुणानाम् अभावे मनः प्रयुज्य यन्त्रं जन्... कर्तुं न शक्यते मनः सूक्ष्मं भवति अतः मनसि केवलं विचारस्य चिन्तनस्य भावनायाः च गणार्थं गुणाः सन्ति एते एव मार्गाः यई मनः ब्रह्ममापयितुं शक्यते इदानीं वयं दृष्टवन्तः अस्मिन् जगति पञ्चतत्त्वानि सन्ति आकाशः वायुः अग्निः चलति इति तेषाम् आकाशः सूक्ष्मं सूक्ष्मतमं वर्तते इदानीम् आकाशस्य अपेक्षा मनः सूक्ष्मं वर्तते मनसि तु किञ्चिदपि तन्मात्रं न भवति मनः अमूर्तवस्तु भवति तत् मनः समस्तप्रपञ्चे सूक्ष्मं वर्तते इदानीं मनसः ब्रह्म ज्ञानं भवितुम् अर्हति मनसा चिन्तनं विचारं कृत्वा वयं किञ्चित् किञ्चित् ब्रह्म किमस्ति सिद्धमस्ति इति मनसा एकं सिद्धान्तरूपेण ज्ञातुं शक्यते किन्तु मनसा एव कोऽपि नास्ति अतः मनसा अपि कोऽपि यन्त्रं निर्मातुं न शक्यते येन मनः ज्ञातुं शक्यते वा ब्रह्म ज्ञातुं शक्यते वा इति न केवलं चिन्तनं विचारं एव मन मनसा ब्रह्म ब्रह्मणस्य ज्ञानं भवितुम् अर्हति सम्यक् समीचीनम् इति एव विषयः अस्ति सम्यक्तया उक्तवती इत्युक्ते तत्र इत्युक्ते तत्र ब्रह्म सूक्ष्मं सूक्ष्मं वर्तते इति अस्माभिः ज्ञातं ब्रह्म इन्द्रियग्राह्यं नास्ति ब्रह्म पञ्चभूतैः निर्मितं नास्ति इति वयं जानीमः मनः अपि तथैव अस्ति मनः अपि सूक्ष्मं वर्तते इन्द्रियग्राह्यं नास्ति पञ्चभूतैः निर्मितं नास्ति ब्रह्मणः एव मनः एव अस्ति ब्रह्मणः एव मनः अस्ति तर्हि यानि पञ्चभूतानि सन्ति आकाशवायु अग्निजलं क्षिति इति तानि सर्वाणि अपि स्थूलानि सन्ति यतोहि तेषु तन्मात्राणि सन्ति अतः तैः ब्रह्मणः मापनं न शक्यते इति उक्तम्, परन्तु मनः तु बहु सूक्ष्मं वर्तते कलु, तर्हि मनस् मनसः द्वारा ब्रह्मणः मापनं शक्यते इति प्रश्नः परन्तु मनः वर्तते इति जानीमः मन मनसः बहु किमपि कर्तुं शक्यते चिन्तनं कर्तुं शक्यते इति विचारं कर्तुं शक्न, शक्नोति मनः तत्सर्वम् अस्ति तर्हि इदानीं प्रश्नः अस्ति तैः मनसः य यद् वर्तते तेन सामर्थ्येन ब्रह्मणः मापनं शक्यते वा इति आत्र प्रश्नः अस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः एतदपि वयम् एकवारं स्वीकुर्मः तत्र ओके आ... प्रियभग्नि okay. पठितुं न शक्नोति अत्र अस्तु तर्हि सरलाभग्नि स्वीकरोति वा बुद्धि hmm. तत्त्वम् अहं तत्त्वं चित्तम् चेत् हि मनः निर्मितः वर्तते प्रकृतिः यदा अणुचैतन्यं गुणान्वित् करोति तदा बुद्धितत्वस्य निर्माणं भवति बुद्धितत्वस्य उपरि प्रकृतेः अधिकार अधिका प्रभावात तत्त्वम् अस् अस्ति तत्त्वम् प्रभावात अधिकप्रभावात् अधिकप्रभावात् अहं तत्त्वम् अस्तित्वं प्राप्नोति तथैव चित्तं प्रकृतेः गुणान् वयेन अस्तित्वम् अस्तित्वं प्राप्नोति अहं तत्त्वं मनसः यः भागकार्य कार्यं करोति सः भाग अहं तत्त्वम् अस्ति यत्किमपि कर, कर्म कर्तुं सामर्थ्यं केवलम् अहं तत्त्वे एव भवति अतः यदि मनसा ब्रह्म परिमापनीयं तर्हि तर्हि अहं तत्त्वनेव कर्तव्यं भवति बुद्धि तत्त्वम् अहं तत्त्वं चेत् एतयोः पृथक् करोति अहं तत्वम् अतः अनुचैतन्यं पर्यन्तं न प्राप्नोति यावत् बुद्धितस्य द्वारा न गच्छति परन्तु अहं तत्त्वं तु बुद्धितत्वस्य कार्यात्मकं कार्यात्मकं रूपम् एव बुद्धितत्वस्य अहम् अस्मि इति भावनायाम् अहम् इति अंशः अहं तत्त्वं भवति यदा सः अंश अहं कार्यं करोमि इति भावना स्वीकरोति यस्मिन् क्षणे अहं तत्त्वं बुद्धितत्त्वे विलीनयति तस्मिन् क्षणे अहं तत्त्वस्य अहं कार्यं करोमि इति कार्यात्मकतात्मक कार्यामक... कार्यात्मकतादात्म्यं कार्यात्मक... मक... मक... निवर्तते अहं कार्यं करोमि इति कार्यात्मकतादात्म्यं निर्वर्तते अहम तत्व अहम तत्वेण अणुचैतनेलीन न शक्नो अणुचतन सं, संपर्क संपर्क पूर्व अहम तत्व बुद्धितत्वेणरित भेदवत्व कि कार्य कर शक्नो अणुचैतन्य मपन तो नवती यतः मनः अणुचैतन्यस्य सम्पर्कं प्राप्तुम् असमर्थं भवति ततः तत् कदापि अणुचैतन्यस्य मापनं कर्तुं न शक्नोति ब्रह्म इति सर्वेषाम् अनुचैतन्यान् अनुचैतन्यानां सामूहकं नाम वर्तते मनः एकम् अणुचैतन्यम् अपि मापयितुं न शक्नोति अतः सर्वेषां बहुविधानाम् अनुचैत्यानाम् परम परमगुणाकारस्य मापनस्य प्रश्नः न उद्भवति मनः कदापि भ्रमणपरिमाणस्य विषये किमपि चिन्तयितुम् अनुभवितुं ग्रहीतुं वा न शक्नोति अस्तु पङ्क्तिशः वदामि आम आमामावशं वयं पूर्वं जानीमः अनुचैतन्यं पुरुषः यत् अस्ति प्रकृति तस्य त्रीणि विभजनं त्रयविभजनम् अस्ति त्रिविधाति चित् अस्ति तमस गुण तमसगुणस्य प्रभावेन अहं तत्त्व यत् अस्ति तत् अहङ्कार्यं वदामः तत् रजोगुणप्रभावेन अस्ति अपि महत्तत्त्वं बुद्धितत्त्वं यद्वयम् इति सतोगुणप्रभावेन भवति यदि चैतन्य जपुरुष ब्रह्मचैतन्य वा अणुचैतन्य तस्य सम्पर्क यदि प्रकृत्या भवति प्रकृतिः ब्रह्मम् अणुचैतन्यं गुणान्वित् करोति तदानीम् एव प्रकृतिः तस्य गुणान् सत्त्वगुण रजोगुणसमोगण इति आधारेण प्रभावेण ब्रह्मस्य त्रीणि विभजनम् अभवत् इति नपुंसकलिङ्गशब्द भगिनी ब्रह्मणः ब्रह्मस्य इति भवति साधु नपुंसकलिङ्गे अपि न तत्र ब्रह्मन् इति शब्दः ओ ब्रह्मन् अस्तु त्रीणि विभजनं त्रिविध विभजनम् अभवत् तस्य यथा बुद्धि तत्त्वम् अहं तत्त्वम् अपि चित्तम् इति सो इदानीं यदि तस्य प्रभावे गुणान्वित् यदि अनुचेतनं भवति अहं तत्त्वमनसः भाग यत् वयं जानीमः बुद्धितत्त्व यत् यदि अहम् अस्मि इत, इत केवलम् इति प्रभावः अस्ति तस्य अहम् अस्मि तदनन्तर्यम् अहङ्कारं यदस्ति अहं जानामि इति आगच्छति चित्तं यत् अस्ति तः अनेन इन्द्रियाणि यदि तन्मात्रा स्वीकृत्य मनसा आकारितं भवति तदानीम् एव तस्य मनसि चित् चित् चित् चित्ते चित्तसि आकार विषय आकारि यदि भवति तदानीमेव अहं तत्त्वं वयं जानीमः वदति अहं जानामि इति अहं तत् रूपं स्पर्शम् इति इत्यादि रूपाणि इन्द्रिय ये विषयाः इन्द्रियाणीः इन्द्रियाणां ये ये विषयाः सन्ति ते अहं तत्व जानाति इति आगच्छति किन्तु इदानीम् अस्माकं अस्ति अनुचेतनं कथं जानी जानी अस्माभिः ज्ञातं ज्ञातव्यम् इति यदि भवति तत्र केवलम यदि अहं तत्त्व अहंकार अहम् इति तस्मै विलीनं भवति तदानीमेव अहं महत्तत्त्वं भ्रमतत्त्वे विलीनं भवति इति अस्ति किन्तु तस्य मापनं न भवति इति वार्ता अस्ति इदानीं अत्र दत्तमस्ति मनसा कदापि अनुचेतनस्य मापनं न भवतुं शक्नोति मनसा वयं विचारं कुर्मः या विषयान् ये विषयाः सन्ति तेषाम् अवगमनं भवति तदनन्तरं यदि विषयः आकारितः भवति तदा एव अहङ्कारतत्त्वं यत् आगत्य तत्र तस्य अवगमनं करोति किन्तु अणुचैतन्यं प्रति मनसा आ न भवति किमपि यावत्पर्यन्तं मनः शान्तः न भवति यावत्पर्यन्तं मनः अहङ्कारं प्रथमं विलीनं भवति तदनन्तरम् हि अहङ्कारमहत्तत्वे विलीनं भवति तदनन्तरमेव अणुचैतनस्य अनुभूतिः भवति पर किन्तु तस्य मापनं न भवति इति अस्ति सम्यक् भगिनि समीचीनम् स एव विषयः अस्ति स एव विचारः अस्ति मनसः त्रयः भागाः सन्ति इति वयं जानीमः बुद्धितत्वम् अहं तत्त्वं चित्तम् इति बुद्धितत्वम् अहम् अस्मि इति भावः अस्ति अहं तत्त्वं वस्तुतः कार्यं करोति चित्तं तत्र वस्तुनः आकारं स्वीकरोति तदानीम् अहं तत्त्वं चित्तं दृष्ट्वा तस्य ज्ञानं भवति इति तत्र इति क्रमः अस्ति अथवा प्रक्रिया अस्ति तत्र शुद्धपुरुषस्य अहमस्मि इति भावः तदा एव भवति यत्र प्रकृतेः गुणः तत्त्वगुणः पुरुषं पुरुषं गुणान्वितं करोति तदानीं बुद्धितत्वम् अथवा तत्र अहं किं महत्तत्त्वम् आयाति रजगुणस्य प्रभावेन बुद्धितत्वे रजोगुणस्य प्रभावेन तत्र अहं तत्त्वम् आयाति तत्त्वमेव कार्यात्मकरूपम् अस्ति कार्यं करोमि इति तत्र कार्यात्मकं डूवर् ऐ अस्ति तदनन्तरं तमोगुणस्य प्रभावेन तत्र अहं तत्त्वे तदानीं चित्तम् इति आयाति चित्तमेव तत्र तत्र चलनचित्र दृश्यं यदा भवति तथा तत्र वस्तुनः आकारं स्वीकरोति यदा वयं पुस्तकं पश्यामः अथवा तत्र सङ्गीतं शृण्मः अथवा किमपि स्पृशामः कस्यचित् ग्राणं कुर्मः अथवा रसस्वादं कुर्मः सर्वं चित्तद्वारा अभवति चित्तं तस्य तस्य सर्वस्य तद्दद्वस्तुनः आकारं स्वीकरोति तदानीम् अहं तत्त्वं तद् तद्वस्तुन आकारं पश्यति तर्हि अत्र बुद्धितत्वं चित्तम् उत्तमः अहं तत्त्वम् इत्येतेषु त्रिषु केवलम् अहं तत्वमेव कार्यं कर्तुं शक्नोति इति कृत्वा अहं तत्वमेव किमपि मा मापनम् इति यदा मापनं करणीयं तदानीम् अहं तत्त्वेन एव तत् कर्तुं शक्नोति चित्तं तु अहं तत्त्वस्य अधीनम् अस्ति अहं तत्त्वं यदा वदति तथा चित्तं करोति अतः चित्तस्य स्वतन्त्रतया किमपि तत्र किमपि तत् न कर्तुं शक्नोति अहं तत्त्वेन आदेशः दीयते तत्र सर्वम् अहं तत्वेनैव क्रियते अतः आत्मनः मापनमपि अहं तत्वेनैव यदि करणीयं तर्हि अहं तत्वेन एव अस्माभिः करणीयम् तर्हि इदानीम् अहं तत्त्वं क कथम् इति चेत् रजोगुणस्य प्रभावेन महत्तत् महत्तत्वे रजोगुणस्य प्रभावेन एव अहं तत्त्वम् आगतम् तर्हि इदानीं यदि तत्र मापनं करणीयं तर्हि अहं तत्वेन एव करणीयम् तर्हि अहं तत्त्वम् अपि च आत्मा अनयोः मध्ये महत्तत्त्वं वर्तते तर्हि सर्वदा वयं पश्यामः सर्वदा अहं तत्त्वं बाह्यवस्तुनः दर्शनमेव सर्वदा करोति बाह्यमेव सर्वदा पश्यति चित्तद्वारा सर्वदा बाह्यमेव पश्यति अस्माकं पशुजीवनमस्ति इति कृत्वा सर्वदा चित्तम् अहं तत्त्वं चित्तस्य चित्तस्य निर्देशं करोति तदानीं चित्तस्य निर्देशं करोति तदानीं चित्तं बाह्यवस्तुनः आकारं स्वीकरोति अहं तत्त्वं तस्य दर्शनं करोति इति कृत्वा प्रायेण सर्वेषां समयः तत्र एव गच्छति इदानीम् अहं तत्त्वं यदा अन्त अन्तर्मुखी भवति अन्तर्मुखी अन्तर्मुखी भवति तदानीं तत्र कस्यचित् मुनिः ओके अन्तर्मुखी भवति तदानीं वयं चिन्तयितुं शक्नुमः इदानीम् अहं तत्वं ब्रह्मणः मापनं कर्तुं शक्यते वा इति प्रायेण अहं तत्वं तु सर्वदा व्यस्ता अहं तत्त्वं व्यस्तं भवति बाह्यवस्तुनः ज्ञान ज्ञानार्थं सर्वदा तत्र भोजनस्य रुचिः अथवा पुष्पाणां गन्धः अथवा यत्किमपि भवतु सर्वदा व्यस्तं भवति बाह्यजगतः जगता सह इदानीं इदानीम् uh, अन्तर् अन्तर्मुखी यदा भवति तदानीम् अन्तर्मुखी भूत्वा तत्र आत्मनः दर्शनं भवितुमर्हति वा इति चेत् तत्र अहं तत्त्वम् अपि च आत्मानयोः मध्ये महत्तत्त्वं वर्तते इदानीं चित्तद्वारा आत्मनः आकारं भवितुमर्हति वा इति चेत् चित्तं तु आत्मनः आकारं गृहीतुं न शक्नोति तर्हि वस्तुतः अहं तत्त्वं तु आत्मपर्यन्तं न आगन्तुं शक्नोति एव आत्मा तु बहु सूक्ष्मवस्तु अस्ति चित्तस्य अपेक्षया अहं तत्त्वस्य अपेक्षया इतोपि सूक्ष्मवस्तु अस्ति तर्हि चित्तं कस्य कस्य वस्तुनः आकारं स्वीकरोति इति चेत् यद्वस्तु इन्द्रग्राह्यम् अस्ति तस्य एव आकारं स्वीकर्तुं शक्नोति चित्तम् इत्युक्ते बाह्यवस्तुनः आकारं स्वीकर्तुं शक्नोति चित्तं ब्रह्मणः आकारं स्वीकर्तुं शक्नोति वा इति चेत् चित्तम् भ्रह्मणः आकारं स्वीकर्तुं न शक्नोति यतोहि चित्तं तु स्थूलं वर्तते ब्रह्मणः अपेक्षया तर्हि इदानीम् अन्तर्मुखी यदा भवति अन्तर्मुखी भूत्वा जीवात्मनः जीवात्मनः दिशि वयम् अन्तर्मुखी यदा भवामः तदानीम् इत्युक्ते अहं तत्त्वम् अन्तर्मुखी यदा भवति तदानीं तत्र किं भवति इति चेत् तत्र स्वयं तद् अहं तत्त्वं यदा भगिनी उक्तवती अहं तत्त्वं महत्तत्त्वे विलीनं भवति विलीनं भवति तदानीं किं भवति इति चेत् अहं करोमि इति इति विषयः एव नास्ति तदानीं केवलम् अहम् अस्मि इति भावः एव भवति तदानीं केवलं महत्तत्त्वमेव भवति महत्तत्वं किमपि कर्तुं न शक्नोति इति कृत्वा यदा अहं तत्त्वं महत्तत्वे विलीनं भवति यदा अन्तर्मुखी भवति यदा अन्तर्मुखी भवति तदानीं स्वयम् अहं तत्वं महत्तत्त्वे विलीनं भवति इति कृत्वा अहं तत्वम् इदानीं नास्ति केवलं महत्तत्त्वमेव अस्ति महत्तत्वेन आत्मना सह सम्पर्कः न यद्यपि अस्ति परन्तु महत्तत्वेन आत्मनः मापनं तु न शक्यते यतोहि महत्त्वं किमपि कर्तुं न शक्नोति भावः अस्ति तत्तु किमपि कार्यं कर्तुं न अतः अहं तत्त्वं तु आत्मना तस्य सम्पर्कः नास्ति इति कृत्वा तत्र मनसा मनसः द्वारा आत्मनः मापनं न शक्यते इति अत्र विषयः अस्ति अवगतं वा कुत्र संशयः अस्तु कोपि संशयः अस्ति वा अत्र साधना अस्ति साधु इति एव साधना इति एव साधना अस्ति इत्येव साधना अस्ति सम्यक् अस्तु तर्हि अत्र स्थगनं कुर्मः आं महोदय सम्य, सम्यक् सम्यक् बहु सम्यक् तर्हि अत्र स्थगनं कुर्मः विरमामः अग्रिमसप्ताहे इतः अग्रे गच्छामः धन्यवादाः नमस्कारः धन्यवादः धन्यवादः नमस्कारः